मा पिता रुदमा मातर्मा स्वसस्त्विति चाब्रवीत् प्रहसन्निव सर्वां स्थानेकैकमनुसर्पति ततस्य तृणमादाय अनेनाहं हनिष्यामि राक्षसं पुरुषादकं तथापि तेषां दुःखेन परीतानां बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् अयं काल इति ज्ञात्वा कुन्ती स्वमुपसृत्यतान् गतासूनमृतेनैव जीवयन्तीदमब्रवीत् इति श्रीमहाभारते आदिपर्वणि बकवधपर्वणि ब्राह्मणकन्यापुत्रवाक्ये अष्टपञ्चाशदधिकशततमोऽध्यायः